मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं ट्वेन्टि सेवेन् श्रीगणेशाय नमः मुद्गल उवाच प्राचीनबर्किषपुत्रास्ते पुस्ते तप उत्तमं सहस्रवर्षपर्यन्तं ततस्तुष्ठो जनार्दनः आय्यौ तान्वरं दातुं गरुढस्तश्चतुर्भुजः तं दृष्ट्वा ते प्रणेमुश्चात्पूजयं स्तुष्टुर्मुदा प्रचेतस ऊचुः नमस्ते केशवायैव नमस्ते भूदभावना निराकाराय कृष्णाय विष्णवे प्रभविष्णवे आदिमध्यान्तहीनाय वासुदेवायते नमः सर्वाज्ञानविनाशाय ज्ञानदात्रे कृपालवे लक्ष्मीपदे नमस्तुभ्यं भक्तसंरक्षकाय च भक्तिप्रियाय देवाय शेषशायिन्नमोऽस्तु दे भुक्तिमुक्तिप्रदायैव विकुण्ठपदये नमः नारायणाय शान्ताय सत्त्वयुक्ताय ते नमः वयं सपितरो धन्या यैः प्रदृष्ठो जनार्दनः वरं देहि विशेषेण सृष्टिसामर्थ्यदायकम् एवं स्तुतः प्रसन्नात्मा तानुवाच स्वयं हरिः सामर्थ्यमधुलं सृष्टौ भविष्यति च वः तपसा सिद्धरूपाश्च भवन्तो नात्र संशयः यद्यदिच्छद तद्वद्वः सफलं प्रभविष्यति भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेद् पठतां शृण्वतां चैव मत्प्रसादकरं परम् एवमुक्त्वा दर्दधे स विष्णुपरपुरञ्जयः तेऽपि त्यक्त्वा श्रमं गच्छतां पथितेषां वै मार्गे वृक्षा अनेकशः अराजके समुत्पन्ना मार्ग रोदनकारकाः तान् दृष्ट्वा क्रोधयुक्तास्ते ससृजो वाग्निमुल्बणं तेन दत्ता वने वृक्षाः सकला यत्र तत्र च तेषु स्वल्पस्थितेष्वेव चन्द्रस्तत्र समागतः प्रगृह्यवृक्षजाम् कन्याम् ददौ तेभ्यो यथाविधि ऋषिवीर्यात् समुत्पन्नाप्सरः सुद्रुमपालिता प्रगृह्यताम् शान्तिमाप्ता अग्निम् चक्रुः सुशान्तिदम् स्वराज्यम् प्राप्यते सर्वे पालयामासुरादराद प्रजापुत्राणि वा ध्यक्षा यन्द्रितास्ते प्रचेतसः मारिषायां प्रचेतेभ्यो दक्षत्वं त्वभवस्तदा रुद्रचापेन सर्वज्ञस्तथा वै त्यजसायुधः गणेशवरदानेन ब्रह्मपुत्रत्वमञ्चसा न गमिष्यति ते दक्षप्रजापालो भविष्यति त्वां च राज्ये समास्थाप्य वनं चायुः प्रचेतसः ते पुस्तत्र तपोघोरं योगशान्त्यर्थमादराद तत्रापि योगी गणेशे गानतत्परः आययौ परमप्रीदः प्रचेतसां हितं चरन् नेमुस्सम्पूज्य तं भक्त्या स्थिदा प्राञ्जलयो भवन् तानुवाजमुनिश्रेष्ठ किमिच्छावः प्रचेतसः ब्रूदतां पूरयिष्यामि भवतां भावदोषितः नारदस्य वच श्रुत्वा प्रोच्युस्तं ते प्रचेतसः वद त्वं शान्तिदं कृपया करुणानिधे श्रुत्वा सवचनं देशं हर्षेण उवाच सकलं योगं योगशान्तिपदप्रदं नारद उवाच शान्तियोगात्मकम् भूपा गणेशं कथयन्ति वै योगज्ञा भ्रमभूताश्च तम्भजध्वं प्रचेतसः अहं गणेशाभिन्नश्च योगोऽयं शान्तिदायकः कथितो विष्णुना पूर्वमह्यं शान्तिप्रदः परः तेन शान्तिं समास्थाय चरामि गणपं स्मरन् गतभ्रान्तिश्च सर्वत्र हर्षयुक्तेन चेतसा चित्तस्य पञ्चभूमीनां भ्रान्तिं त्यक्त्वा नरः सदा योगरूपो न सन्देहो भवेद्वै शान्तिरूपकः सर्वमायामयं प्रोक्तं भ्रान्तिदं बुद्धिलालितं त्यक्त्वा तद्योगिनः शान्ता भवेतैव प्रचेतसः एवमुक्त्वा महायोगी नारदस्वेच्छया ययौ हे रम्भेदिस्मरन् स्वर्गे कैलासे हर्षसंयुतः तेऽभिप्रचेतसर्वे कथितं योगमादरादक्रमेण साधयित्वा तं गाणपा अभवन्पराः अन्ते गणेशदेहे ते तदा कारा प्रजापदे जादाब्रह्ममया शान्दा महौजस्काः प्रचेतसः प्रचेतसां चरित्रं यः पढेद्वै यः शृणो दिवा तस्य भुक्तिश्च मुक्तिर्वै भविष्यति सुखप्रदा ॐ तस्य दिदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते प्रचेतसां चरितं नाम सप्तविंशतितमोऽध्यायः ओम्